श्रीहरि नमः अत पञ्चदशोऽध्यायः श्रीभगवानुवाच जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः मयि उपतिष्ठन्ति सिद्धयः उद्धव उवाच कथं स्वित्सिद्धिरच्युता कति वा योगिनां सिद्धितो भवान् श्रीभगवानुवाच सिद्धयोष्टादशप्रोक्तं धारणायोकपारगैः तासामष्टौ मत्प्रधाना दसैव गुणहेतवः अणिमा महिमा मूर्तेर्लहिमा प्राप्तिरिन्द्रियैः प्राकाम्यां श्रुतदृष्टेषु गुणेषु असङ्को वसिता यत्कामस्तदव्यस्यते एतो मे सिद्धयः सौम्य अष्टावौत्पत्तिकामताः अनूर्मित्वं देहेऽस्मिन् दूरश्रवणदर्शनं मनोजवकामरूपं परकायप्रवेशनं स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् यथा सङ्कल्पसंसिद्धिराज्ञा प्रतिहता गतिः त्रिकालज्ञत्वम् अद्वन्द्वं परचित्ताज्ञभिज्ञता अज्ञऋकाम्बुविषादीनां प्रतिष्ठम्बोभराजयः एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः यया धारणया भूतत् सूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः अणिमानम् अवाप्नोति तन्मात्रोपासगोम महत्यात्मन्मयि परे यथा संस्तं मनो धत् भूतानां च पृथक् परमाणुमये चित्तं भूतानां मयि कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् धारयन्मय्यहन्तत्वे मनोवैकारिकेऽखिलं सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः महत्यात्मनि यक्षूत्रे धारयेन्मयि मानसं प्राकाम्यं पारमेष्ट्यं मे विन्दते व्यक्तजन्मनः विष्णौ त्रयदीश्वरे चित्तं धारयेत् कालविग्रहे सगीषित्वम् अवाप्नोति क्षेत्रक्षेत्रज्ञचोतनां नारायणे तुरीयाक्ये भगवत् शब्दः शब्दिते मनोमय्या धी निर्गुणे ब्रह्मणि मयि धारयन् विसधं परमानन्दमाप्नोति यत्र कामोऽवसीयते श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मये धारयन् श्वेततां याति षडूर्मिरहितो नरः मय्याकासात्मनि प्राणे मनसा घोषम्बुद्वहन् तत्रोपलब्धा भूताना हंसो वाच चक्षुस्त्वष्टरि संयोज्य त्वष्टारपचक्षुषे मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मद्रे मनोमयी सुसंयोज्य देहं तदनुवायुना मद्धारणानुभावेन तत्रात्मा यत्र वै मनः यथा मन उपाधाय यत्यत्रूपं बुभूषति तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः परकायं विशंसिद्ध आत्मानं तत्र भावयेत् पिण्डं हित्वा विशेत् प्राणो वायुभूतषडङ्घ्रिवत् पार्ष्ण्यापीठ्य गुतं प्राणं हृदुरकण्ठमूर्धस आरोप्य ब्रह्मनीत्वोत्सृजेत्तनुं विकरिष्यन् सुराक्रीडे मत्स्तं सत्वं विभावयेत् विमानेन उपतिष्ठन्ते सत्त्ववृद्धिः सुरस्त्रियः यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्परः मयि सत्ये मनो युञ्जन्स्तथा तत् यो वै मद्भावमापन्न ईसि दुर्वसितुः पुमान् कुतश्चिन्नविहन्येत तस्य सा ज्ञा यथा ममा मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदहा तस्य त्रैकालिकी बुद्धेर्जन्ममृत्युपभ्रंहिता अज्ञादिभिर्न हन्येत मुनेर्योगमयं वपुः मद्योगशान्तचित्तस्य यथा साम्बुदगम्यथा मद्विभूतिरभिध्यायन् श्रीवत्शास्त्रविभूषिताः ध्वजातपत्रव्यजनये सभवेत उपासकस्य मामेवं योगधारणया मुनेः सिद्धयः उपतिष्ठन्ति अशेषतः जितेन्द्रियस्य दान्तस्य जितश्वाशात्मनो मुनेः मद्धारणां धारयत का सा सिद्धिः सुदुर्लभा अन्तरायां वदन्त्येधा युञ्जतो योगमुत्तमं मया सम्भत्यमानस्य कालक्षपणहेतवः जन्मौषधि तपो मन्त्रैर्यावती योगेनाप्नोति ताः सर्वा नान्ये योगगतिं व्रजेत् सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः अहं योगस्य साङ्कस्य धर्मस्य ब्रह्मवादिना अहमात्मान्तरो बाह्यो अनावृतसर्वदेहिनां यथाभूतानि भूतेशो बहिरन्तः स्वयं तथा इति श्रीमद्भागवते महापुराणे एकादशस्तन्ते पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की ज